धनवनवतितमः सर्गः निरिष्टायाम् तु सेनायामुत्सुको भरतस्ततः जगामभ्रातरम् द्रष्टुम् शत्रुघ्नमनुदर्शयन् ऋषिम् वसिष्ठम् सन्दिश्य मातृर्मे शीघ्रमानय इति त्वरितमग्रे स जगामगुरुवत्सलः सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत रामदर्शनजस्तर्शो भरतस्येव तस्य च गच्छन्नेवाथ भरतस्तापसालय संस्थिताम् भ्रातुः पर्णकुटीम् श्रीमानुरजम् च ददर्शः शालाया स्वग्रतस्तस्या ददर्श भरतस्तदा काष्ठानि चावभग्नानि पुष्पाण्यपचितानि च स लक्ष्मणस्य रामस्य ददर्शाश्रवमीयुषः कृतम् वृक्षेष्वभिज्ञानम् कुशचीरैः क्वचित् क्वचित् ददर्शचवने तस्मिन् महतः सञ्चयान् कृतान् मृगाणाम् महिषाणाम् च करीषैः शीतकारणात् गच्छन्नेव महाबाहुर्युतिमान् भरतस्तदा शत्रुघ्नम् चाब्रवीत् धृष्टस्थानमात्यांश्च सर्वशः मन्ये प्राप्तास्मतम् देशम् भरद्वाजोऽयमब्रवीत् नातिदूरे हि मन्येऽहम् नदीम् मन्दाकिनीमितः उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छत इतश्चोदात्तदन्तानाम् कुञ्जराणाम् तरस्विनाम् शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् यमे बाधातुमिच्छन्ति तापसाः सततम् वने तस्यासौ दृश्यते धूमः सङ्कुलः कृष्णवर्त्मनः अत्राहम् पुरुषव्याघ्रम् गुरुसत्कारकारिणम् आर्यम् द्रक्ष्यामि सम्भृष्टम् महर्षिणि अथगत्वा अथ गत्वा मुहूर्तम् तु चित्रकूटम् स राघवः मन्दाकिनीमनुप्राप्तस्तञ्जलम् चेदमब्रवीत् जगत्याम् पुरुषव्याघ्र आस्ते रतः जनेन्द्रो निर्जनम् प्राप्य धिन्मे जन्म स जीवितम् मत्कृते व्यसनम् प्राप्तो लोकनाथो महाद्युतिः सर्वान् कामान् परित्यज्य वने वसति राघवः इति लोकसमाकृष्टः पादेष्वद्य प्रसादयन् रामम् तस्य पतिष्यामि सीताया लक्ष्मणस्य च एवम् स विलपंस्तस्मिन् वने दशरथात्मजः ददर्शमहतीम् पुण्याम् पर्णशालाम् मनोरमाम् सालतालाश्वकर्णानाम् पर्णैर्बहुभिरावृताम् शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनैः रुक्मपृष्ठैर्महासारैः शोभिताम् शत्रुबाधकैः अर्करश्म्यप्रतीकाशैर्घोरैस्तूणगतैः शरैः शोभिताम् दीप्तवदनैः सर्पैर्भोगवतीमिव महारजतवासोभ्यामसिभ्याम् च विराजिताम् रुग्नबिन्दुविचित्राभ्याम् चर्मभ्याम् चापि शोभिताम् गोधाङ्गुलित्रैरासक्तैश्चित्रकाञ्चनभूषितैः हरिसङ्घैरणाधृष्याम् मृगैः सिंहगुहामिव प्रागुदक्रवणाम् वेदिम् विशालाम् दीप्तपावकाम् ददर्श भरतस्तत्र रामनिवेशने निरीक्ष्य समुहूर्तम् तु ददर्श भरतो गुरुम् उटजय राममासीनम् जटामण्डलधारिणम् तु चीरवल्कलवाससम् प्रदर्श राममासीनमभितः पावकोपमम् सिंहस्कन्धम् महाबाहुम् पुण्डरीकनिभेक्षणम् पृथिव्याः सागरान्ताया भर्तारम् धर्मचारिणम् उपविष्टम् महाबाहुम् ब्रह्माणमिव शाश्वतम् स्थण्डिले दर्भसंस्तीर्णे दृष्ट्वा भरतः श्रीमाञ्छोकमोहपरिप्लुतः अभ्यधावत धर्मात्मा भरतः केकयीसुतः दृष्ट्वैव विललापार्तो बाष्पसन्दिग्धया गिरा अशक्नवन् वारयितुम् धैर्याद्वचनमब्रुवन् यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम् वन्यैर्मृगैरुपासीनः ममाग्रजः वासोभिर्बहु महात्मा पुरोचितः मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् अधारयद्यो विविधाश्चित्रा सुमनसः सदा सोऽयम् जटाभारमिमम् सहते राघवः कथम् यस्य यज्ञैर्यथादिष्टैर्युक्तो धर्मस्य सञ्चयः शरीरक्लेशसम्भूतम् स परिमार्गते चन्दनेन महार्हेण मलेन तस्याङ्गमिदम् कथमार्यस्य सेव्यते मन्निमित्तमिदम् दुःखम् प्राप्तो रामः सुखोचितः दिग्जीवितम् प्रशंसस्य मम लोकविगर्हितम् इत्येवम् विलपन्दीनः प्रस्विन्नमुखपङ्कजः पादाव प्राप्य रामस्य पपात भरतो रुदन् भरतो राजपुत्रो महाबलः उक्त्वार्येति सकृद्दीनम् पुनर्नोवाच किञ्चन बाष्पैः पिहितकण्ठश्च प्रेक्ष्य रामम् यशस्विनम् आर्येत्येवापि सङ्कृष्य नाशकत्ततः शत्रुघ्नश्चापि रामस्य भवन्दे चरणौ ततः सुमन्त्रेण गुहेन चैव समीयतो राजसुतावरण्ये दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्र बृहस्पतिभ्याम् तान् पार्थिवान् वारणयूथपार्हान् समागतांस्तत्र महत्यरण्ये वनौकसस्तेभि समीक्ष्य सर्वे त्वश्रूण्यमुञ्चन् प्रविहाय हर्षम् इत्यार्षे श्रीमद् वाल्मीकिये आदिकाव्ये अयोध्याकाण्डे नवनवतितमः